षडशीतितमोऽध्यायः वैशम्पायन वैशंपायनो वाच च नाहुषो राजा ययातिः पुत्रमीप्सितम् राज्येऽभिषिञ्च मुदितो वानप्रस्थो भवन्मुनिः उषित्वा च वने वासम् ब्राह्मणैः संशितव्रतः फलमूलाशनो दान्तस्ततः स्वर्गमितो गतः निवसन्मुदितः सुखी कालेन चातिमहता पुनश्चक्रेण पातितः निपतन् प्रच्युतः स्वर्गादप्राप्तो मेति नीतलम् स्थित मया तत एव पुनश्चापि प्रतर्दनेन शिबिना समेत्य किल संसदि जनमे जय उवाच कर्मणा केन स दिवम् पुनः प्राप्तो महीपतिः सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः कथ्यमानम् त्वया विप्र विप्रर्षिगणसन्निधौ देवराजसमोह्यासीद्ययातिः पृथिवीपतिः वर्धनः विभावसु समद्युतिः तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः चरितम् श्रोतुमिच्छामि दिविचेह च सर्वशः वैशम्पायनोवाच हन्त ते कथयिष्यामि ययातोरुत्तमाम् कथम् दिविचेह च पुण्यार्थाम् सर्वपापप्रणाशिनीम् ययातिर्नाहुशो राजा पूरं पुत्रम् कनीयसम् राज्येऽभिषिञ्चमुदितः प्रवव्राजवनम् तदा अन्त्येषु च विनिक्षिप्य पुत्रान् पुरोगमान् फलमूलाशनो राजा वने सन्न्यवसञ्चिरम् शंसितात्माजितक्रोधस्तर्पयन् पितृदेवताः अग्नींश्च विधिवज्जुह्वन् वानप्रस्थविधानतः अतिथीन्पूजयामास वन्येन हविषा शिलोच्छवृत्तिमास्थाय शेषान्न कृतभोजनः पूर्णम् वर्षसहस्रम् च एवम् वृत्तिरभून् नृपः अभ्यक्षः शरदस्त्रिंशद् आसीन्नियतवाङ्वनाः तथा पञ्चाग्निमध्ये च तपस्तेपेसवत्सरम् ष्मालाशन पुण्यकर्ति स्वर्गे जगामृत्यदसी महाभार आदिपर्वि संभवपर्वि उत्तरया षडशीतिमोध्याय